सदाचारप्रदर्शनं ब्रह्मानन्दानुभवश्च श्रीगुरुभ्यो नमः हरिः ॐ सहनावतु सह नौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधितमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ न कश्चन वसतौ प्रत्याचक्षीत तद्व्रतम् अस्माद्यया कया च विधया ब्रह्मण्णं प्राप्नुयाम् अराध्यस्मा अन्नमित्या चक्षते एतद्वै मुखतो ओन्नगं राद्धं मुखतोस्मा अन्नगं राध्यते एतद्वै मध्यतो ओन्नगं राद्धम् मध्यतोस्म अन्नगं राध्यते एतद्वा अन्ततो अन्ततो स्मा अन्नगं राध्यते य एवं वेद क्षेम इति वाचि योगक्षेम इति प्राणापानयोः कर्मेति हस्तयोः गतिरिति पादयोः विमुक्तिरिति पायौ इति मानुषे ए समाज्ञा अथ दैवीः तृप्तिरितिविष्टौ बलमिति विद्युती यश इति पशुषु ज्योतिरिति नक्षत्रेषु प्रजातिरामृतमानन्द इत्युपस्थे सर्वमित्याकाशे तत्प्रतिष्ठेत्युपासीतं प्रतिष्ठावान् भवति तन्महः इत्युपासीतं महान् भवति तन्मन् इत्युपासीतम् मानवान् भवति तन्नम् इत्युपासीतं नम्यते एस्मै कामाः तद्ब्रह्मेत्युपासीतं ब्रह्मवान् भवति तद्ब्रह्मणः परिमर इत्युपासीत परेण म्रियन्ते पत्नाः पर्य ए भ्रातृव्याः स यश्चायं पुरुषे यश्चासा बाधित्ये स एकः स एवंवितम् अस्माोकात् प्रीत्य एतमन्नमयमात्मानमुपसंक्रम्य एतं प्राणमयमात्मानमुपसङ्क्रम्य एतं मनोमयमात्मानमुपसङ्क्रम्य एतं विज्ञानमयमात्मानमुपसङ्क्रम्य एतमानन्दमयमात्मानमुपसङ्क्रम्य इमान् लोकान् कामाण्डी कामरूप्यणि सञ्चरन् एतत्सां आ अहमन्नमहमन्नम् अहमन्नादो अहमन्नादो अहमन्नादः अहग्ग शोक कृतहग्ग शोककृद्दहग्ग शोककृीन् अहमस्मि प्रथमजारितास्य पूर्वं देवेभ्यो अमृतस्य भाई यो मा ददाति स इदेव माह अहमन्नमहमन्नम् अनन्तमा आद्मी अहम विश्वं भुवनं अभ्यं भवाम् सुवर्णज्योतिः य एवं वेद इत्युपनिषत् ॐ शान्तिः शान्तिः शान्तिः हरिः ओम्